चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः भरतः सुरथश्चैव सुनीथो निषठो नलः दिवोदासश्च सुमनाम्बरीशो भगीरथः व्यश्वस्सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः ऋषदशो वसुमनाः सुमहाबलः ऋषर्द्रुर्वृषसेनश्च पुरुकुत्सो आष्टिशेणो दिलीपश्च महात्मा चाप्युषी नरः औषी नरिः पुण्डरीकः शर्याति शरभः शुचिः अङ्गोरिष्टश्च वेनश्च दुष्यन्तःसृञ्जयोजयः भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः करन्धमो बाह्लिकश्च सुद्युम्नो बलवान् अयलो ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः कपोतरो मातृणकः सह देवार्जुनौ तथा व्यश्वः साश्वः शशबिन्दुश्च पार्थिवः राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः अलर्कः कक्षसेनश्च गयो गौराश्व प्रथाश्वो श्च राुम्नो महासेनचरस्तथा इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठो न पद्मोथमुचुकुन्दश्च भूरिद्युम्नः प्रसेद अरिष्टने निःसुद्युम्नः पृथुलाश्व शतम् मत्स्या नृपतयः शतम् नीपाः शतम् गयाः धृतराष्ट्राश्चैकशतमशीतिर्जनमे जयाः शतम् च ब्रह्म दत्तानाम्णाम् शतम् भीष्माणाम् द्वे शतेऽप्यत्रा तु तथा शतम् शतम् च प्रतिविध्यानाम् शतम् नागा हयाः पलाशानां शतम् ज्ञेयम् शतम् काशकुशादयः शान्तनुश्चैव राजेन्द्रा पाण्डुश्चैव पिता तव उशङ्गपश्यत रथो देवराजोदयद्रथः वृषदर्भश्च राजर्षिर्बुद्धिमान् सह मन्त्रिभिः सहस्राणि ये गता एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः तस्याम् सभायाम् उपासते अगस्त्योऽथमतङ्गश्च कालो मृत्युस्तथैव च यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः अग्निष्वात्ताश्च पितरः केनपाश्चोष्मकाश्च स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथा परे कालचक्रम् च साक्षाच्च भगवान् हव्यवाहनः नरा दुष्कृतकर्माणो दक्षिणायन मृत्यवः कालस्य नयने युक्ता यमस्य पुरुषश्च ये तस्याम् उपासते धर्मराजम् मूर्तिमन्तो एते चान्ये बहवः पितृराज सभासदः न शक्याः परिसङ्ख्यातुम् नामभिः कर्मभिस्तथा असम्बाधा हि सा पार्था रम्या कामगमा सदा दीर्घकालम् तपस्तप्त्वा निर्मिता विश्वकर्मणा ज्वलन्ती भासमाना च तेजसा स्वेन भारत तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः शाता सन्यासीन शुद्धा पोता पुण्यन कर्मण सर्वे भास्वर सर्वे च भास्वेहा चिरांगदिमल्या ज्वल्तकुंडलाकर्म भी पुण्य पारिबर्ह भूषिता